चाणक्यनीति अध्यायम् सिक्स्टीन् नध्यादम् पदमीश्वरस्य विधिवत्संसारविच्छित्तये स्वर्गद्वारकपाडपाडनपडुर्धर्मोऽपिनोपार्जितः नारी पीनपयोद्धरोरुयुगला स्वप्नेपि नालिङ्गितम् माधु केवलमेव यौवनवनच्छेदे कुठारावयम् चल्पन्ति सार्धमन्येन पश्यन्त्यन्यं सविभ्रमाः हृदये चिन्तयन्त्यन्यं न स्त्रीणामेकदो रतिः यो मोहान्मन्यदे मूढो रक्रेयं मयिकामिनी स तस्या भूत्वा नृत्ये क्रीडा शकुन्तवद कोत्थान् प्राप्य न गर्विदो विषयिणः कस्यापदोस्तं जताः स्त्रीभिः कस्य न खण्डितं भुवि मनः नाम राजप्रियः कःकालस्य न गोचरत्वमगमत्कोर्ची गदो गौरवं को दुर्जन दुर्गमेषु पदिदः क्षेमेण यादः ननिर्मिदो न चैव न दृष्टपूर्वो न श्रूयते हे मम यः कुरङ्कः तथापि तृष्णा रघुनन्दनस्य विनाशकाले विपरीतबुद्धिः गुणैरुक्तमदाम्ब्यादि नोच्चैरासनसंस्थिताः प्रासादशिखरस्थोऽपि काक किम् गरडा ये गुणसर्वज्यम सभी पूर्णेन्दु किं तथा वंद्यो निष्को यशुण यस्तु निर्गुणों गुणी भवद इन्द्रोऽपि लखुतां व्याधिस्वयं प्रख्यापितैर्गुणैः विवेकिनमनुप्राप्ता गुणायान्तिमनोज्ञतां सुतरां रत्नमाभादि चामीकरनियोजितम् गुणैः सर्वज्ञतुल्योऽपि सीदत्येको निराश्रयः अनर्ह्यमपि माणिक्यं हेमाश्रयमपेक्षते अदिक्लेश्येन यद्द्रव्यमधिलोभेन यत् सुखं शत्रूणां प्रणिपादेन ते ह्यर्था मा भवन्तु किं तया क्रियते लक्ष्म्या या वधूरिव यादु वेश्येव सामान्या पथिकैरपि भुज्यते धनेषु जीवितव्येषु स्त्रीषु चाहारकर्मसु अधृप्ताः प्राणिनः सर्वे यादा यास्यन्ति यान्ति प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः तदेव वक्तव्यं वचनेका दरिद्रता क्षीयन्ते सर्वदानानि यज्ञहोमबलिक्रियाः न नक्षीयदे पात्रदानमभयं सर्वदेहिनाम् तृणं लघु तृणात् तूलं तूलादपि च याचकः वायुनाकिम् किं न नीतोसौ मामयं याचयिष्यति वरं प्राणपरित्यागो मानभङ्गेन जीवनाद प्राणत्यागेक्षणं क्षणं दुःखं मानभङ्गे दिने दिने संसारविषवृक्षस्य द्वे फले मृतोपमे सुभाषितम् च सुस्वादु सङ्गतिसज्जने जने जन्म जन्म दानमध्ययनं दानमध्ययनम् तपः तेनैवाभ्यासयोगेन देही चाभ्यस्यते पुनः पुस्तकस्था तुया विद्या परहस्तगदम् धनम् कार्य समुत्पन्ने न साधन ओम।